श्रीमद्भागवत महापुराण दशम स्कतीतमोध्या दंत वक्त और विदूरस्थ का उद्धार तथा तीर्थयात्रा में बलराम जी के हां से हास्य जी का वचन शेषु कुवाच शिशुपाल पौंड्र क्या दुर्मति परलोकगतानां च कुर्वन् पारोक्ष्यसोदम् एकपदातिसङ्क्रुद्धो गदापाणि प्रकम्पयन् पद्भ्यामि मां महाराज महासत्त्वो व्रदिष्यत तं तथा यान्तमारोक्य गदामादाय सत्वरः अवलुप्य रथात् कृष्ण सिन्धुं वेलेव प्रत्यधात् गदामुद्यम्यकारुषो मुकुन्दं प्राह दुर्मदः दृष्ट्या दृष्ट्या भवानद्य मम दृष्टिपथं गतः त्वं मातुलेयो न कृष्णमित्रधुङ्मां जिघांसे अतस्त्वां गदयामन्दहनिसे वज्रकल्पयां तर्ह्य निण्यमुपैम्यज्ञमित्राणां मित्रवत्सलः बन्धरूपमरिं हत्वा व्याधिं देहचरं यथा एवं रुक्षैस्तुदन्द्वाप्यै कृष्णं तोत्रैरिवद्विपं गदया ताडयन् मृध्नि सिंहवद्भ्यनन्द्यनदत्यस गदयाभिहतो व्याजौ न च चालयदूद्वह कृष्णोऽपीतमहन् गुर्व्यां कौमे दख्यास्तुनान्तरे गदा निर्भिन्नहृदय उद्गमन् रुधिरं मुखात् प्रतार्य केशबाह्वनिन्धरण्यां न्यपदद्यसू तत सूक्ष्मतरं ज्योतीकृष्णमावीसदद्भुतं पश्यतां सर्वभूतानां यथा चेद्यवधे निप विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुतः आगच्छदसिचर्मभ्याम् उत्सव संस जिघांसयाम् तस्य चापतत कृष्णचक्रेण छरिणेमिनां शिरोजहार राजेन्द्रशकिरीटं शकुण्डलम् एवं शोभं च सार्वं च दन्तभक्त्रं सहानुजम् हद्वादिरस्वहानन्यैरीडितसुरमानवैः मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः अप्सरोभिः पितृकणैर्यक्षै किन्नरचारणैः उपगीयमानविजयकुसुमैरभिवर्षितः व्रतश्च वृष्णे प्रवरैर्विवेशालङ्कृतां पुरीम् एवं योगीश्वरः कृष्णो भगवान् जगदीश्वरः इयते पशुदृष्टीनां निर्जितो जयतीति स श्रुत्वा युद्धोद्यमं राम कुरुणां स पाण्डवैः तीर्थाभिषेकव्याजेन मध्यस्थप्रयौ किल स्नात्वा प्रभासे संतर्प्य देवर्षि पितृमानवान् सरस्वतिं प्रति श्रोतं ययो ब्राह्मणसंवृतः पृथूदकं बिन्दुसरस्तु कूपं सुदर्शनं विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीं यमुनामनुयान्येव गङ्गामनुजभारत जगामनै संयत्र ऋषयसत्रमाशते तमागतम् अभिप्रेत्य मुनियो दीर्घसन्त्रिणः अभिनन्द यथा न्यायं प्रणम्योत्थाय चार्चयन् सोऽर्चितसपरिवारः कृतासनपरिग्रह रोम हर्षणमासीनं हर्षे शिष्यमेक्षत अप्रत्युत्थायिनं सूतम् अकृतप्रहुणाञ्जलिम् अध्यासीनं च तान् विप्राञ्चु कोपोद्वीक्ष माधवः कस्मात् साभिमाण्डिं प्राणध्यास्ते प्रतिलोमय धर्मपालास्तथैवास्मान् बधमर्हति दुर्मतिः ऋषेर्भगवतो भूत्वा शिष्योधित्य बहूनि च सेतिहासपुराणानि धर्मशास्त्राणि सर्वश अदान्तस्याविनीतस्य वृथा पण्डितं मालिनः न गुणाय भवन्ति स्म न तस्यैवाजितात्मनः एतदर्थो हि लोकेऽस्मिन् अवतारो मया कृतः वध्या मे धर्मध्वनिध्वजिनन्ते हि किनोधिका एतावदुक्त्वा भगवान् ऋविद्वो सद्वधादपि भावित्वात्तं कृशाग्रेण करस्ते नाहनत्प्रभो हाहेतिबाजिनः सर्वे मुनियखिन्नमानसाः ऋचु सङ्कर्षणं देवम् अधर्मस्ते कृतप्रभो अस्य ब्रह्मासनं दत्तम् अस्माभिर्यधुनन्दनम् आयुश्चात्मा क्लमं तावद् यावत् सत्रं समाप्यते अजानतैवाचरितस्त्वया ब्रह्मवतो यथा योगेश्वरस्य भवतो नाम्नायोऽपि नियामकम् यद्येतद्ब्रह्महत्याया पावनं लोकपावनं चरिष्यति भवाल्लोकसङ्ग्रहोऽन्यचोदितः श्रीभगवानुवाच करिष्यैवधनिर्वेशं लोकानुग्रहकामयां निमप्रथमे कल्पे यावांस तु विधीयतां दीर्घमायुर्वृतैस्तस्य सत्वमिन्द्रियमेव च आशाशितं यद्दद्ब्रूत साधये योगमाययां त्रितयुचुः अस्त्रस्य तीर्यस्य मृत्योरस्माकमेव च यथा भवेद्वचः सत्यं तथा राम विधीयतां श्रीभगवानुवाच आत्मा वै पुत्र उत्पन्न इति वेदानुशासनं तस्मादस्य भवेद्वक्ता आयुरिन्द्रियसत्त्ववान् किं वा कामो मुनिश्चेष्टावताहं करवाण्यथ अजानत त्वं पचतिं यथा मे चिन्त्यतां बुधाः विषय ऊचुः इल्ब्वस्य सुतो घोरो बल्वलो नाम दानवः स दूषयति न शत्रमेत्य पर्वणि पर्वणि तं पापं जहिदाशार्ह तन्न शुश्रोषणं इन्पूयशोडितं ब्रह्मद्र सुरामांसा विवर्षिणं ततश्च भारतं वरसं परित्य सुसमाहितः चरित्वा द्वादशमासीमासांसिरसस्नायि विशुध्यते इति श्रीमद्भागुते महापुराणे पारं चां जयितायां दशमस्कन्धे वृद्रार्थे बलदेवचरित्रे वल्वल्वोपक्रमो नामाष्टशब्दति तमोऽध्यायः